ॐ नमो भगवते वासुदेवाय अथ श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्म्ये श्रीनारायण नारदसंवादे वाल्मीनि वाल्मीकिनोक्तदृढधनवोपाख्याने पुरुषोत्तममासमाहात्म्यकथनं नाम एकोनविंशतितमोऽध्यायः श्रीहरिरुवाच द्विजराजकृतं यत्ते नैतदन्यः करिष्यति न तद् वेत्ति भवान् नूनं येनाहं तुष्टिमाप्तवान् अयं मम प्रियो मासः प्रयातः पुरुषोत्तमः तत्सेवाते समजनि शोकमग्नस्य एकमप्युपवासं यः करोत्यस्मिन्स्तपो निधेयम् असावनन्तपानि भस्मीकृत्य द्विजोत्तमं सुरयानं समारुह्य वैकुंठं याति मासमात्रं निराहारोह्य कालजलदागमात् त्रिषु कालेषु ते स्नानं सञ्जातं अभ्रस्नानं त्वया मासमात्रं तपोधन उपवासाश्च ते जातास्तावन्मात्रमखण्डिता शोकसागरमग्नस्य पुरुषोत्तमसेवनाम् अजानतोऽपि सञ्जातं चेतनारहितस्य ते त्वदीयसाधनस्यास्य प्रमाणं कः करिष्यति एकतः साधनान्येव वेदोक्तानि च यानि वै तानि सर्वाणि सङ्गृह्य ह्येकतः पुरुषोत्तमं तोलयामासदेवानां सन्निधौ चतुरानः लघून्यन्यानि जातानि गुरुश्च पुरुषोत्तमः तस्माद् भूमिस्थितैर्लोकैः पूज्यते पुरुषोत्तमः पुरुषोत्तममासस्तु सर्वत्रास्ति तोधनम् यदस्मिन् उग्रं तपः परमदारुणं मानुषं जन्म सम्प्राप्य मासे श्रीपुरुषोत्तमे स्नानदानादिरहिता दरिद्राजन्मजन्मनि तस्मात् सर्वात्मना यो वै सेवते पुरुषोत्तमं समे वल्लभतां याति धन्यो भाग्ययुतो नरः एवमुक्त्वा हरिशीघ्रं जगाम जगदीश्वर वैनतेयं नेयं वैकुंठमतुलं वैकुण्ठमतुलं नृपुण्ठमलं नृपौ सपत्नीकः सुदेवस्तु मुमुदेशं मृतोत्थितं शुकं दृष्ट्वा अजानतो ममैवासीत् पुरुषोत्तमसेवनं तदेव सफलं जातं येन पुत्रो मृतोत्थितः अहो एतादृशो मासो नैव दृष्टः कदाचन इत्येवं विस्मयाविष्टम् इत्येवं विस्मया तं मासं समपूजय तेन पुत्रेण मुमुदे सपत्नीको द्विजोत्तमः पितरं नन्दयामास शुकुदेवोऽपि सत्कृतैः स्तुवन्मासं च विष्णुं च पूजयामास सादरं कर्ममार्गस्पृहां त्यक्त्वा भक्तिमार्गकृतस्पृह सर्वदुःखापहं मासं वरिष्ठं पुरुषोत्तमं जप होमादिभिस्तस्मिन् अभजत् श्रीहरिं श्रियं भुक्त्वा विषयान् सर्वान् सहस्राब्दमहर्निशं जगामपरमं लोकं सपत्नीको द्विजोत्तमः योगिनामपि दुष्प्रापं याजकानां तत्र गत्वा न शोचन्ति यत्र गत्वा न शोचन्ति वसन्तो हरिसन्निधौ तत्रत्यं सुखमासाद्य सपत्नीको भवतः स एव दृढन् वा त्वं प्रथितः पृथिवीपतिः पुरुषोत्तमवासस्य सर्वमाख्यातं पृष्टवानसि यन्म शुकस्तु तव भूपाल पूर्वजन्मनि यस्वतः शुकदेव इति ख्यातो हरिणायोनुजीवितः द्वादशाब्दसहस्रायुर्भुक्त्वा वैकुण्ठमी जिवान् स एवारण्यसरसि वडवृक्षं समाश्रितः त्वामेवागतमालोक्य पितरं पूर्वजन्मनः हितानामुपदेष्टारं प्रत्यक्षं दैवतं मम संसारसागरे मग्नं विषयव्यालदूषिति अत्यन्तकृपयाविष्टश्चिन्तयामासकीरजः न बोधयामि चेद्भूपं ममापि बन्धनं भवेत् पुण्णामनरकाद् नरकाद्यस्तुत्रायते पितरं सुतः इति श्रुत्यर्थबोधोऽपि स्यादेवा तस्मादुपकरिष्यामि पितरं पूर्वजन्मनः अवधार्य वचश्चेत्थं कीरजोजी गमनृपम् इत्येतत्कथितं सर्वं यद्यत्पृष्टं त्वया नरं गमिष्यामि इत्येवं प्रथमजनुश्चरित्रमुक्त्वा भूपस्य प्रथितं मुनिमनुनीय राजराज प्रावोचत् किमपि न मन्नगण्य पुण्यः इति श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्म्ये श्रीनारायण नारदसंवादे वाल्मीकिनोक्त दृढधन्वोपाख्यानि पुरुषोत्तममासमाहात्म्यकथनं नाम एकोन एकोन्विंशतितमोऽध्याय श्रीपुरुषोत्तमा अर्पणमस्तु